ॐ वर्षाय नमः ॐ वरलक्ष्म्यै नमः ॐ विक्रमाय नमः ॐ विलासिन्य नमः ॐ विनताय नमः ॐ व्योमममध्यस्थाय नमः ॐ वारिजासनसंस्थिताय नमः ॐ वारुण्यै नमः ॐ वेणुसम्भूताय नमः ॐ वितिहोत्राय नमः ॐ विरूपिण्यै नमः ॐ वायुमण्डलमध्यस्थाय नमः ॐ विष्णुरूपायै नमः ॐ विधिक्रियायै नमः ॐ विष्णुपत्न्यै नमः ॐ विष्णुमत्यै नमः ॐ विशालाख्यय नमः ॐ वसुन्धराय नमः ॐ वामदेवप्रियायै नमः ॐ वेलाय नमः ॐ वज्रिण्यै नमः ॐ वसुदोहिन्यै नमः ॐ वेदाक्षरपरिताङ्ग्यै नमः ॐ वाजपेयफलप्रदायै नमः ॐ वासव्यय नमः ॐ वामजनन्यै नमः ॐ वैकुण्ठनिलयायै नमः ॐ वराय नमः ॐ व्यासप्रियायै नमः ॐ वर्मधराय नमः ॐ वाल्मीकिपरिसेवितायै नमः ॐ शाकम्भर्यै नमः ॐ शिवायै नमः ॐ शान्ताय नमः ॐ शारदाय नमः ॐ शरणागत्यै नमः ॐ शर्यै नमः ॐ शिवाचारायै नमः ॐ शम्भासुररानन्दिन्यै नमः ॐ शोभावत्यै नमः ॐ शिवाकाराय नमः ॐ शङ्करार्धशरीरिण्यै नमः ॐ शोणाय नमः ॐ शुभाशयाय नमः ॐ शुभ्राय नमः ॐ शरस्सन्ध्यानकारिण्यय नमः ॐ शरावत्यै नमः ॐ शरानन्दाय नमः ॐ शरज्योत्स्नाय नमः ॐ शुभाननाय नमः ॐ शरभायै नमः ॐ शूलिन्यै नमः ॐ शुद्धाय नमः ॐ शवाण्यै नमः ॐ शरीवध्याय नमः शबर्यै नमः ॐ शुकवाहनाय नमः ॐ श्रीमत्यै नमः ॐ श्रीधरानन्दाय नमः ॐ श्रवणानन्ददायिन्य नमः ॐ ष्भाषाय नमः ॐ षडुत्तुप्रियाय नमः ॐ षडाधारस्थितादेव्यै नमः ॐ ष नमः ॐ षडङ्गरूपसुमत्यै नमः ॐ शुरासुरनमस्कृताय नमः ॐ सरस्वत्यै नमः ॐ सदाधारायै नमः ॐ सर्वमङ्गलकारिण्यै नमः ॐ श्यामगानप्रियायै नमः ॐ सूक्ष्माय नमः ॐ सावित्र्यै नमः ॐ श्यामसम्भवायै नमः ॐ सर्ववासाय नमः ॐ सदानन्दाय नमः ॐ सुस्तन्यै नमः ॐ सागराम्बराय नमः ॐ सर्वैश्वर्यप्रियायै नमः ॐ सिद्ध्यै नमः ॐ साधुबन्धुपराक्रमाय नमः ॐ सप्तर्षिमण्डलगतायै नमः ॐ सोममण्डलवासिन्यै नमः ॐ सर्वज्ञायै नमः ॐ सान्द्रकरुणाय नमः ॐ समाधादिकवर्जिताय नमः ॐ सर्वोत्तुङ्गाय नमः सङ्गहीनायै नमः ॐ सद्गुणायै नमः ॐ सकलेष्टदायै नमः ॐ सरगाय नमः ॐ सूर्यतनयाय नमः ॐ सुकेश्यै नमः ॐ सोमसंहत्यै नमः ॐ हिरण्यवर्णाय नमः ॐ हरिण्यै नमः ॐ ह्रिङ्कार्यै नमः ॐ हंसवाहिन्यै नमः ॐ क्षौमवस्त्रपरिताङ्ग्यै नमः ॐ क्षीराब्दितनयायै नमः ॐ क्षमायै नमः ॐ गायत्र्यै नमः ॐ सावित्र्यै नमः ॐ पार्वत्यै नमः ॐ सरस्वत्यै नमः ॐ वेदगर्भाय नमः ॐ परारोहायै नमः ॐ श्रीगायत्र्यै नमः ॐ पराम्बिकाय नमः इति देवीभागवतपुराणे द्वादशस्कन्धे गायत्री सहस्रनामावली समाप्ता